त्रयोविंशत्यधिकशततमोऽध्यायः वैशम्पायन उवाच कुन्ती पुत्रेषु जातेषु धृतराष्ट्रात्मजेषु च मद्रराजसता पाण्डुम् रहो वचनमब्रवीत् न मेऽस्तित्वै सन्तापो विगुणेऽपि परन्तप नावरत्वे वरार्हाया स्थित्वा चानघनित्यदा गान्धार्याश्चैव रुपते तथा श्रुत्वा न दुःखमभवत् कुरु नन्दन इदन्तु मे पुत्रता दिष्ट्यात्विदानीम् भर्तुर्मे कुन्त्यामप्यस्ति यदि त्वपत्यसन्तानम् कुन्ति कुर्यादनुग्रहो मे तव चापि हितम् भवेत् संरम्भो हि सपत्नीत्वात् वक्तुम् कुन्ति प्रति यदि प्रसन्नो मे स्वयमेनाम् प्रचोदय पाण्डुर्वाच ममाप्येष सदा माद्रि हृद्यर्थः परिवर्तते न प्रसहे वक्तुम् इष्टानिष्टविवक्षया तवत्विदम् मतम् मत्वा प्रयतिष्याम्यतः मन्ये ध्रुवम् सा वचनम् प्रतिपत्स्यते वैशम्पायनोवाच ीम् पुनः पाण्डुर्विविक्त इदमब्रवीत् कुलस्य मम सन्तानम् लोकस्य च कुरु मम चापिण्ड नाशाय चात्मनः मत्प्रियार्थम् च कल्याणि कुरु कल्याणमुत्तमम् यशसोऽर्थाय चैवत्वम् कुरु कर्म सुदुष्करम् प्राप्याधिपत्यमिन्द्रेण यज्ञैरिष्टम् यशोर्थिना तथा मन्त्रविदो विप्रास्तपस्तप्त्वात् सुदुष्करम् गुरूनभ्युपगच्छन्ति यशसोऽर्थाय तथा राजर्षयः सर्वे ब्राह्मणाश्च तपोधनाः चक्रुरुच्चावचम् कर्म यशसोऽर्थाय दुष्करम् सा त्वम् माद्रीम् प्लवेनैव तारयैनामनिन्दिते अपत्यसंविभागेन पराम् कीर्तिमवाप्नुहि वैशम्पायिनोवाच एवमुक्त्वा ब्रवीन् माद्रीम् सकृच्चिन्तयदैवतम् तस्मात्ते भवितापत्यमनुरूपमसंशयम् ततो माद्री विचार्यैवम् जगाम मनसाश्विनौ तावागम्यसुतौ तस्याम् जनयामासतुर्यमौ नकुल सह दीचे प्रतिम भुवि तथा तावा यम वगुवाचाशरीणी सत् गुणोपेतना भासतस्तेज साथंपद्रविण संपदा ना चक्रि ततश्रृंग ज्येष्ठम् युधिष्ठिरेत्येवम् भीमसेनेति मध्यमम् अर्जुनेति तृतीयञ्च कुन्ती पुत्रा न कल्पयन् पूर्वजम् न कुलेत्येवम् सह देवेति चापरम् माद्रीपुत्रावकथयन्स्ते प्रीतिमानसाः अनुसंवत्सरम् जाता अपिते ते कुरु सत्तमाः पाण्डुपुत्रा महासत्त्वा महावीर्या महाबलपराक्रमाः पाण्डुर्दृष्ट्वा सुतांस्तांस्तु देवरूपान् महौजसः मुदं परमिकाम् लेभे ननन्द च नराधिपः ऋषीणामपि सर्वेषाम् शतशृङ्गनिवासिनाम् प्रिया बभूवुस्तासाञ्च तथैव मुनियोषिताम् कुन्तीमथ पुनः पाण्डुर्माद्र्यर्थे समचोदयत् तमुवाच पृथा राजन् रहस्युक्ता तदा सती उक्ताः सकृद्वन्द्वमेषा लेभे परिभवात् कुस्त्रीणाम् गतिरीदृशी नाज्ञासि मूढा द्वन्द्वाह्वाने फलद्वयम् तस्मान्नाहम् नियोक्तव्या फैशोऽस्तु वरो मम एवम् पाण्डोः पञ्च देवदत्ता महाबलाः संभूताः कीर्तिमन्तश्च कुरु वंश विवर्धनाः शुभलक्षण सम्पन्नाः सोमवत्प्रियदर्शनाः सिंह दर्पा महेश्वासाः सिंह विक्रान्त विवर्धमानास्ते तत्र पुण्ये हैमव ते गिरौ जातमात्रानुपादाय शतशृङ्गनिवासिनः पाण्डोः पुत्रान्मन्यन्त तापसास्वानिवात्मजान् ततस्तु विष्णयः सर्वे वसुदेव पुरोगमाः पाण्डुशापभयाद्भीतः शतशृङ्गमुपेयिवान् तत्रैव मनुभिः सार्धम् तापसोऽभूत्तपश्चरन् शाकमूलफलाहारस्तपस्वी नियतेन्द्रियः ध्यानयोगपरो प्रब्रुवन्ति स्म बहवस्तच्छ्रुत्वा शोककर्षिताः पाण्डोः प्रीतिसमायुक्ताः कदा श्रोष्याम सत्कथाः इत्येवम् कथयन्तस्ते वृष्णयः सह बान्धवैः पाण्डोः पुत्रागमम् श्रुत्वा सर्वे हर्षसमन्विताः सभाजयन्तस्तेऽन्योऽयम् वसुधेवम् वचो ब्रुवन् वृष्णय ऊचुः न भवरेन् क्रियाहीनाः पुत्रा महायशः पाण्डोः प्रियहितान् वेषि प्रेषय पुरोहितम् वैशम्पाय नोवाच वसुदेवस्तधेत्युक्त्वा विससर्ज पुरोहितम् युक्तानि च कुमाराणाम् पारिबर्हाण्यनेकषः कुन्तीम् मात्रीम् च सन्दिश्य दासीदासपरिच्छदम् काश्च रौप्यम् हिरण्यम् तानि सर्वाणि सङ्गृह्य प्रययौ स पुरोहितः तमागतम् द्विज श्रेष्ठम् काश्यपम् ृधामाद्री च संहृष्टे वसुदेवम् प्रशंसताम् ततः पाण्डुः क्रियाः सर्वाः पाण्डवानामकारयत् गर्भाधानाधिकृत्यानि चौलोपनयनानि च काश्यपः कृतवान् सर्वमुपाकर्म च भारत चौलोपनयनादूर्ध्वम् वृषभाक्षा यशस्विनः सर्वे समपद्यन्तपारगाः शर्यातेः पृषतः पुत्रः नाम परन्तपः येन सागरपर्यन्ता धनुषा निर्जितामहि अश्वमेधशतेरिष्ट्वा स महात्मा महामखैः आराध्यदेवताः सर्वाः पितृनपि महामतिः शतशृङ्गे तपस्तेपे शाकमूलफलाशनः तेनोपकरणश्रेष्ठे शिक्षया चोपबृंहिताः तत्प्रसादाद्धनुर्वेदे समपद्यन्तपारगाः गदायाम् पारगो भीमस्तोमरेषु युधिष्ठिरः असि चर्मणि निष्णातौ सव्यसाची परन्तपः शुकेन समनुज्ञातो मत्समोऽयमिति प्रभो अनुज्ञाय ततो राजा शक्तिम् खड्गम् तथा धनुश्च ददताम् श्रेष्ठः तालमात्रम् महाप्रभं। विपाठक्षुरना राचान् गृध्रपत्रान् अलङ्कृतान् तदौ पार्थाय संहृष्टो महोरगसमप्रभान् अवाप्य सर्वशस्त्राणि मुदितो वासवात्मजः मेने सर्वान् महीपालान् अपर्याप्तान् स्वतेजसः एकवर्षान्तरास्त्वेवम् परस्परमरिन्दमाः अन्ववर्धन्तपार्थाश्च माद्रीपुत्रौ तथैव ते च पंच शत कुरंश विवर्धना सर्वे वृधुरल इति श्री महाभारते आदिपर्णि संभवपर्वि पांडवोत्पतोश्यधिक शतमोध्याय